गणेशपुराणं क्रीडाखण्डम् अध्यायम् हण्ड्रड् एण्ड् फिफ्टि सूत उवाच उपरिष्टाद्दर्शादनृपो दैवपुरं निजं जभर्ष गोपुरादालशोभां दृष्ट्वा ध काञ्चनीम् तदस्तु धर्मासस्मारसभां रम्यां समीक्ष्यः निजं पुत्रं स्नेहवशात्प्राह गद्गदभाषिणि हेमकण्ठो मम सुतो गदो भवेद पित्रोर्मार्गं प्रदीक्षन् जादे जाते संवत्सरेधुना स्वामिन् कृपानिधे तस्य दर्शनं दातुमर्षसि स्त्रियो वाक्यं निशम्यैवं शुचोच नृपतिस्तदा नृप उवाच हेमकण्ठो मम सुतो जीवन् मृतो भवेद उक्तमासीन्मया चास्मैव सरा दर्शनं भवेद अनृतात् कुत्र गच्छेयं नोक्तमासीत्कदाचन न तत्र गन्तुं नो हातुं परमं पदम् विरुद्धं कथमेतद्धि खडेदेत्यरुदद्भृशम् दृष्ट्वा दूतास्तयो शोकमब्रुवन्राजसत्तमं युवयोरोदनं श्रुत्वा कृपा नः समुपागता यादसत्वरं जादे भवत्समाधाने सन्तोषो नः परो भवेद तद उत्तारया मासूर्दुदादेव पुरा दुदक विमानं तद्गणेशस्य पुराणश्रवणागतं नगरं प्रभया व्याप्तं वाद्यकोशैश्च नाधितम् सुबलो ज्ञानगम्यश्च नमस्कृत्य नृपं गणान् यतुर्हेमकण्ठं तं सर्ववृत्तान्तमीरितुं क्षणाद्भद्रासनगदं हेमकण्ठमपश्यतां सन्नद्धैर्वीरमुख्यैश्च परिवीदं महाबलैः अमात्य नागरायर्युक्तमीक्षन्तं नृत्यमुत्तमम् तदमात्यो ज्ञानगम्यं सुबलं समपश्यताम् उत्तस्तु सर्व वीराश्व सामात्यो हेमकण्ठकः आलिङ्गनायते सर्वे तयोः प्रापुः ससम्भ्रमम् तेषामालिङ्गने जादे तदो नृपसुतो ययौ हर्षे न महता युक्तः सरो माञ्जोब्रवीचतौ मम मातापिता मात्यौ क्षमयुक्तौ न वाक्वचिद त्यक्त्वा तौ पितरौ यादौ युवामेकाकिनौ कथम् यवमुक्त्वा स्वासनेदा उपवेश्य प्रपूज्य च वस्त्रचन्दनभूषादिफलताम्बूलकाञ्जनैः तयोर्विना मम प्राणा कण्डमात्रावलम्बिनः अहर्निशं तयोर्ध्यानम् नान्यस्य मम मानसे पिता मे प्रावदत्पूर्वमेकदा दर्शनं पुनः दास्यामीति कथं तच्चानृतं वाक्यं करिष्यति तावूचतुः मा कुरुष्वृद्धा चिन्तां पित्रोऽस्ते कुशलं नृपा तयोः पुण्यप्रभावं को जानादि भुवनत्रये अनुज्ञाम्भवदो गृह्यनिर्गदानगराद्वयं चत्वारोऽपि पितुस्तेभूत् सौकुमार्यादिकं महद क्षुधया पीडितोऽत्यन्तं रक्तस्राविपदाम्बुजम् कन्दमूलैः फलैस्तृप्तिर्न चासी तस्य मादुस्तेपि मातुस्तेऽपि तथावस्थाचलतुर्नपदं तदा भ्रमद्भिर्बहुधा पश्चादृष्टं चारुसरो महद शीतलं वृक्षवल्लीभिस्तत्र सुष्वापभूमिपः सुधर्मापादसंवासं चकारश्रमकर्षिता आवां तु कन्दमूलार्थे या दस्तत्राययौ मुनिशार्दूलो जलार्थे तौ तयोर्हार्दं स गृह्यैव निजमाश्रममाययौ तद आवां समायादौ गृह्यमोलभलं बहु सर्वे तदाश्रमे यादा मुनिना पूजिता भृशं भोजिता षड्रसैश्चान्नैर्विश्रान्तिं परमां गदाः तथ कथा प्रसङ्गो भून्मुनिना नृपेण च सर्वं च कथयद्राजा वृत्तान्तं मुनये तदा तदो मुनिर्ध्यानबलात् पूर्वजन्मस्य सञ्जगौ दुरितं तच्छमोपायमब्रवीत् करुणायुधः दुरिदश्रवणे चास्य सन्त्रासो नौ नृपा भवद सन्दिग्धमना यावत् तावद्देहाद्विनिर्गताः पक्षिणश्वेदवर्णास्तमारब्धा भक्षितुं नृपं तेषां चञ्चु प्रहारेण विह्वलः पतितो नृपः रक्षरक्षेतिकारुण्यात् प्रोक्तः प्रार्थनया तस्य प्रेक्षणमात्रेण पक्षिणोऽन्तर्ददुः क्षणाद सदु बद्ध्वा तस्थौ मुनिमुखो नृपः मह नृपेण स श्रावयामास भक् गणेशस्य पुराणं यद्वर्षमात्रं कृपानिधिः अष्टोत्तरशतेनादौ देवनाम्ना प्रसिच्य च तदङ्कात्पुरुषं घोरं निष्कास्य तपसो व्योमकेशो ललज्जिह्वो व्याकुलः क्षुधया भृशम् भक्ष्यम् ययाचे या स भृगुम् सोवदत्तम् पुरःस्थितम् भक्षयस्वाम्रवृक्षम् त्वम् महान्तम् शुष्कमेव च तेन स्पृष्टो आम्रवृक्षो भस्मसादभवत्क्षणाद ततस्थम् धीवरम्प्राह भक्ष यस्वेत्यसौ मुनिः तदो नृपं मुनिप्राह पुराणश्रवणम् महद श्रेयो निक्षिपनित्यं त्वमस्मिन् भस्मनि भूमिप यावच्चूतस्य वृक्षोऽत्र भवेदन्यो यथा पुरा ततस्त्वमपि राजेन्द्र दिव्यदेहो भविष्यसि तथैव स नृपश्चक्रे स्नात्वा श्रुत्वा कथां बहु न्यक्षिपत्यहं श्रेयस्तस्मिन्मस्मानि वक्तः संवत्सरान्दे वृक्षोऽसौ भवन् नृपरथा पुरा गणेशस्य पुराणे समाप्ते फलपुष्पवान् नृपोऽपि दिव्यकान्तिः स शशिसूर्यनिभो भवत यावन्नृपो मुनिं स्तौ विमानं तावदागतम् नृत्यगीतसमायुक्तं वाद्यकोशनिनादिदं गणेशदूतसंयुक्तमाश्रमान्तिकमास्थितं यक्षोभां पश्यतोर्नाथ दृश्यो नौ सफलाभवन् अधिपुण्यात्पि दुस्तेदु दू। दूदादेवाज्ञया नृपम् न्यक्षिप्यानमध्ये नौ नृपेक्षणप्रणोदिताः सुधर्माजमुनेराज्ञां गृह्यया विमानगा दृष्टं देवपुरं यावत् तावत्त्वत्स्मृतिरागदा अद उत्तारितं उत्तरे नगरान्नृपा दिद्रक्षया विदर्भ्यां ते तौ या त्वां निवेदितुं तयो शीघ्रं दर्शनाय याहिनो नो चेद्गमिष्यति तयोर्वाक्यं निशम्येद्धं हेम कण्ठत्वरान्विदः रोमांजाश्रुसमयुक्त धावान्रुद यय तर्शनोत्सुखिया तदा विशीर्ण भूषणगणों नागरै सकृत गलदश्रुः क्षणात् पापविमानं गणसङ्कुलम् इति श्रीगणेशपुराणे क्रीडाखण्डे हेमकण्ठदर्शनं नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ओ